ृतोद सहस्रक्षेण शतवीर्येण श्रत शतायुषा हविषाः शमेणम् इन्द्रो हृदयीनम् शरदो न यात्यति विश्वस्य ललितस्य या द्वारम् शरञ्जीव शरदो वर्धमानशतम् हे मन्दान् शतमो वसन्तान् शतन्त इन्द्रोः अग्निः स पिता बृहस्पतिः शतायुषा हविषाः शमेणम् प्रविशतम् या याङ्गेयम् तु भृत्यवाया ना हुरितराञ्छम् एवस्तम् प्राणापानो मापाघातमिद युवम् शरीरमस्याङ्गानि जलसे वहतम् पुराः जलानि नीत्वा परिददामि जलानि विदो मावित्वा जरात्वा भद्राणे श्रव्या आन्यम् प्रभृत्य भोजा राहुरितराञ्छम् अमित्वारिमाली ता मुक्षणामिव यस्त्वा मृत्युरभ्यजायमानम् सुपादया दन्ते सत्यस्य हस्ताभ्यामुदयमुञ्च बृहस्पतिः ध्रुवा निशालां शेमे दशादिक्षमाणा तान् त्वाचारे सर्ववीरा सुवीरा हरिष्टवीरानैव ध्रुवा प्रदे दशलेश्व गोमादे गोदादे भूर्जस्वदीघृदादि परस्पतित्राय स्वमहारे सौभागाय ्या आत्वा वत्सो गेदा कोमाराधेन वः सारमास्पन्दमानाः इमान्शालान् सभिता वाजुलिन्द्रो हस्वर्निमिनोतु प्रजानन् उक्षन्तो न मरुतो घृतेन भगवन् दनोतु देवी देवेभिर्निमिताश्चग्रे तृणम् मसा सुमनाशस्तवधास्मभ्यम् शारीरम् वृन्दा स्थूणामधीरोऽहंसोऽग्रो विराजन्मपांशत्रो मारे जन्मपदत्रालो गृहाणाम् शाले तदन्येव शरः सर्वाणीरा रुणा वत्सो जनदासः हेमाम्बरि श्रुतकुम्भा कलशै रघुः पूर्णङ्गभार कुम्भमेतम् गतस्य धारा अमृतेन सम्भृता इमाम्बारेण अमृतेना समीचिपूर्तमभिरक्षात्येना इमा बप्रभाराम् अक्ष्मा यक्ष्मनाशानिः कृतानुवप्रथी यदः संवृजति रावणदताहते तस्मादानन्द्यो नामस्तदा वो नामादिन्धवः यत्प्रेषितावरुणेनाक्षीभम् समवल् गता तदात्मो इन्द्रो वो यते तस्मादावो अनुष्ठन अपकामम् सन्दयमाना अवीवरतमोहिकम् इन्द्रो शक्तेभृद्देवेस्तस्मा त्वार्नाम मोहितम् एको देवोऽप्यतिष्ठत् स्यन्दयमानायथावशम् उदाहीर्हि तस्मादुदरकमुच्यते पापो भद्राहृतमिदानीभ्रत्यापयित्ता रसो मुवृजामघोषो गच्छति वा नो मृतश्च तरण्यवर्णादृढ्यदा वा इदम्बर आपो हृदयमयम् वत्सर्वदावरी इहेत्थमेत चत्वरीर्यत्रेदम् वेशयामिव सम् गो गोष्ठेन सुषदासं नय्यासम् सुभूभूत्या अहर्जातस्य जन्नामसे नास्सं श्रजामसि सम्वस्त्र्यामासम् भोषासम् बृहस्पतिः समिन्द्रो लोधनञ्जयो मयि पुष्यत जग् सञ्जग्माना विभ्युषे हसतिम् भृति सौम्यम् मध्वन इहैवयतनेहोरके वपुष्यत इहवत प्रजा यद्ब्रह्मयी सञ्ज्ञानमस्तु वः शिवो गोष्ठो भवतु शादिशाचैव पुष्यत इहैवत प्रजा यद्ब्रह्मया वः संसृजामसि मया गावो गोपतिनाथशब्धमयम् वा गोष्ठयि सह कायस्पोषेण बहुलाभवन्तिवन्तीर्वा वस्पदे वा इन्द्रमहम् मणिजम् अस्तु रुदन्नरादिम्बरिबन्धिनम् मृगम् धाः नो भगवोः ते अन्तरा पृथिवी सञ्चरन्ति हे माहायुषन्ताम् वयसा कृतेन निराक्रीत्वा धनमाहाराणि विध्वेनार्ध्यमा नो घृतेन जुभोमि हव्यन्तर सेबलाय या जा। वै ये ब्रह्मणा मन्दमालयिमान्धिरम् सेनाय देवी इमग्ने शरणिम् शृनन्मो मास्तु प्रभणाविक्रयश्च प्रतिपणः फलितम् आकृणोतु इदम् हव्यम् संविधानो जोषयताम् शृनन्मो मास्तु जलितमुत्थीतम् च येन धनेन प्रभरम् जलामिधनेन देवाधनमिच्छमानः तन्मे भूयो भवतुमागमीयोग्ने सग्नोहैव येन धनेन प्रपरञ्जलाः मिथनेन दे देवाधनमिच्छमानः अस्मिन्मयम् ज्योषिमादधातु प्रजापायः समिता सोमो अग्निः उपदा वयम् भो सर्वैशरस्तुमः स प्रजा स्वात्मसुरोषु प्राणेषु जातिः विश्वाः ते समिद्भरेमाश्वारे राजवेणः राजस्तोषेण मातेः अग्ने प्रतीवेशारिषाम प्रातरम् प्रातरिन्द्रम् हवामहे प्रातर्मिद्रावरुणा प्रातरश्विना प्रातर्भगम् पूषणम् ब्रह्म नस्पतिम् प्रातः सोममुतरुद्रह्म हवामहे ब्रह्म वामहेमयम् पुत्रमदीतेर्योऽपि धत्ता आर्द्रश्चिद्यम् मन्यमानस्तु नद्यम् भगम् भक्षीत्याह भगप्रणेभगदस्य राजो भगे माम् भगप्रणवाजनयतोऽभिनक्ष्मैर्भगप्रवन्तः स्याम भगवन्तस्यामो तप्रतमेव उतोदीतो भगवन् सोलयस्य वयम् देवानाम् सुमहतो स्याम भगवदेव भगवानस्तु देवादेवाः वयम् भगवन्तः स्याम तन्त्वा भगसर्वैद्यो हवि समध्वराय ओषतो न मन्द धिकाले वचुचे पदाय अर्वाचीनम् वा नंगा सुविदम्भम्श्वाजिन आवहन्तु अश्वावतेर्गोमतेर्न उषासो वीरवदे सदैवन्तु भद्रा गृहम् विश्वत प्रवीता योऽयम् क्षीराः युञ्जन्ति कवयोः युगाविदम् वते देवेशो धीराः देवेषु सुम्भजौ युनक्तसीरा युगाद नो दर्शनोपतेह बीजरम् विराजश्नुष्ट्यः सभा सन् नो दे शृण्यः पक्वमायामन् गाङ्गलम्बलीनवत् सुशीमम् सोमदर्सु उद्वास्था प्रभल्यम् इन्द्रेशाभिलक्षतु तानस्व दे दुहामुत्तरामुत्तराम् समाम् शुनम् सोपाला वितोदन्तु शुनम् केनाच अनोयन्तु आहारुणाः धीराः विषातोष माषधे कृतमस्मै शुनम भर शुनम कष तुलांगल शुनम शुनम श्राम मुलिंग शुनाधी हमे जोक्ने तम शीले मंद महे सुगे यहा घृतेन सीता मधुना समक्ता विश्वे देवेन नोदाद्भिः सानस्यीवय साभ्या वरुत्सोर्जस्पती नव इमाङ्करम् योषयती ययाः सपत्नीम् बाधते ययाः संविन्दते पतिम् उक्ताः पर्णे सुभागे देवजूते सरस्वती सपत्नीयम् मे परा नवम् मे केवलम् कृधि न हि ते नाम जग्राहनो अस्मिन् रामसेव परावतम् सपत्नीयम् गमयामसि उक्ता राहमुक्ता उक्ता मे उक्तराभ्यः अदर्सवर्नीयाममाधारासाधराभ्यः अहमस्मि सह मानो धोक्तमासिताशिः उभय सरस्वती भूत्वा नवीसहामहे हरिते धाम सहामानामुपादे धांस हीरसी मामनुप्रजे मा वत्सङ्गौरी वधावतु वदा वारी वधावतु संशीतम् वजितम् ब्रह्म संसीतम् वीर्याम् वाम् संशीतम् क्षत्रमजरामस्तु जिष्णुर्येषामस्मि पुरोहितः स्वयाम् राष्ट्रम् नयामि पश्यामि शत्रॄणाम् बाहूलेन हविषाहम् नेजयेत्पद्यन्तामदारे भवन्तु देह सोऽम् भवान् पृतन्यामि क्षिणामि ब्रह्माणा मित्रानुन्नायामि स्वानहम् तीक्ष्णीयाम् स परसोरग्ने स्थेष्णदा इन्द्रश्च वज्रात्येष्णीयाम् सोऽषामस्मि पुरोहितः येषामहमायुधा सम् स्याम् येषाम् राष्ट्रम् सुधीरम् वर्धयामि येषाम् क्षत्रमजरामस्तु विश्वे येषाम् चित्तम् विश्वे एवन्तु देवाः वृद्धरिषन्ताम् मघवन्दालीनाम् निर्धीराणाम् जयता मे पृथग् घोषा उरो केतुमन्द उदीरा देवायङ्गद्येच्छामरुतो यन्तु सेनाजाग्रावः सन्तु बाहवः वीक्ष्णेश गो वरधन् मनोतो ग्राजोधा अपलानुग्रवाहवः अवसृषा परावधरणौ ये ब्रह्म जोजर जोजर जातो जयाव्यस्व्ये मरम माद अयन तेजो जायि अग्ने प्रत्यंग सुम भविषा पदे धन रहा प्रणमायक्षत्वयामा प्रभ प्र बृहस्पतिः योदसोमृतायन् देमे दधातुमे स्वामम् राजा नमवासे ग्निङ्गेऽर्भिद आदित्यम् विष्णुम् सोऽयम् ब्रह्माणम् च रहसयम् तन्नो अग्ने अग्निब्रह्म यज्ञम् वर्धय तन्नो देवदातारयुङ्गानायहोदया इन्द्रवायो वादेह वामहे यदा नः सर्वैद्यनः सङ्गत्याम् सुमनासब्दानय कामश्च नोऽभुवत् हर्याणम् बृहस्पतिनिन्दम् दानायचोदय वातम् विष्णुम् सरस्वतीम् सितारम् च वायिनम् वायश्चनुप्रसारणुरा च विश्वान्यन्तः पुता दित्संद प्रजान सर्वीरण्य दुर्गा मे पंच प्रदेश दुर्गा सर्वागोचमरा साहृद गोधनवाच मुदे जंवर्च सात वास्तोष दधा े अग्नयो अस्वान्तर्ये वृद्धे पुरुषे अस्मासु या विवेशौषाधीर्यो वनस्पदेस्तेभ्यो अग्निभ्यो हुतमस्तेतत् यस्यो मे अन्तर्योगोऽस्वन्तर्याविष्टोदयस्व च मृगेषु या विवेशद्दिपदो यश्चतुष्पनस्तेभ्यो अग्निभ्यो हुतमस्तेतत् यजीन्द्रे सरथम् याति देवो वयीश्वानल उत विश्वदाव्याः मेदनाग्निभ्यो हुतमस्वेदत् यो देवो विश्वाद्यमुकाममाहुरयम् दातारम् यो देवस्तेभ्यो अग्निभ्यो हुतमस्वेदत् यन्द्वाहोदाम् पञ्चमानवाः पद सोनृता वदेतेभ्यो अग्निभ्यो हुतमस्त्वेतत् मुक्षान्नाय वशान्नाय गोमापृष्ठायवेदेष्टेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् दिवम् पृथिवीमम् अन्तरिक्षम् ये विद्युत् मनुसञ्चरन्ति ये निक्षान्तर्देवा ते अन्तस्तेभ्यो अग्निभ्यो हुतमस्ते तत् हिरण्यपाणिम् स पिता रविन्द्रम् बृहस्पतिम् वरुणम् हित्रमग्निम् विश्वान् देवानङ्गे रतो हवामः इमम् क्रव्यादम् शमयन्तग्निम् शान्तो अग्निक्रव्या अतोऽ विश्वदाव्यास्त्रम् कव्यादाम् हे पर्वताः सोम पृष्ठत्रा न शीवानि पादः पर्यन्यादग्निस्ते कव्यादामशीयमन् हस्ते वर्चतम् राजताम् बृहत्य सोगत्यान्वस्तम् बभूव तत्सर्वे समादम् मय्यमेतद्विश्वे देवादिति सजोषाः मित्रश्च करुणश्चेन्द्रो रुद्रश्च चेत देवासो विश्वधाय हस्ते माञ्जन्तवर्चदा येन हस्तीव वर्चारम् बहुभजे न राजा मनुष्ये स्वथान्तः येन देवा देवतामग्र आयन्ते न मामद्यवर्त्यताग्ने वर्तस्मिनम् कृणो यत्के वर्जो जातवेदो बृहदभावहूतेः प्रतिशक्षस्वर्चा हस्तीक भगो वही तस्गे नर्च साषि जा महम येन मेहद्बुवीतनाशजामत्वत् इरन्त पातेजोनिम् गर्भाले सुपुमान् बाणादिवे सुधिम् आ वीरोऽत्रताम् पुत्रस्ते दशर मास्यः पुमान्तम् पुत्रम् जनयतम् पुमाननो जायताम् भवति पुत्राणाम् माता जातानाम् जनयाश्चयया या ने भद्राणिलीजा तैस्तम् पुत्रम् विन्दस्वदा स्वसूर्धेनोदा कृणो मे देत्राजा पत्रमायो निर्भयतुदे बिन्दस्वत्तम् पुत्रम्नायसोऽभ्यम् नमसच्छमुतस्मै त्वम् भवान् या सान्द्यो स्मिताोरुधाम् बभूव स्वाहा पुत्रैवेदयः वयस्वती रोषादयः पयस्वम् मामकम्बजाः वयस्वती रामाभरेहंसहस्रेदाहम् वयस्वन्तम् चकार धान्यम् बहु सम्भृत्वा रामयोरेवस्तम् वयम् भामहे यो यो अयज्ञनो घे इमायाः वृष्टे शावम् मदीय वेहस्पातिम् समावाहार उदुत्सम् शतधारम् सहस्राधारमक्षीतम् एवास्मकेदम् धान्यम् सहस्राधारमक्षीतम् शतहस्तसमाहारसहस्रहस्रङ्ख्येरः कृतस्य कार्यस्य देहस्पातिम् समावाह इति स्वामात्रा गन्धर्वाणाम् च वस्त्रो गृहपत्न्याः स्वाहा देव मातया त्वाभिमेषामति ओहश्च न मोहश्च क्षत्रा प्रजापते ता विकामहताम् स्फातिम् बहुम् भोवानपक्षीताम् उत्तुदत्त्वमादृशाश्च जाने स्वे इष कामस्य ताम् सुसन्नताम् कृत्वा कावो विद्यत्वा हृदि या प्रिहाणम् स्वकरे जगामस्येषा राजीयवक्षाम्योषादया विद्या वित्वा हृदि शुच विद्याव्योषया शुष्कास्याभिसत्त्वमन्य केवले प्रियवादिन्यौ व्रता आजामित्वाजन्यापरे मातुरथो पितुः निी मित्रावरुणौ कृतश्चिल्लान्यश्च तम् अधै नाम कृतम् कृतरामेव कृतम् वशे ये एष्याम् स्तप्राच्याम् विषेदयो नाम देवास्तेखाम्भो वः ेनो <tě> मृदाय नो विश्वातेभ्यो वो नमस्तेभ्यो वस्मः येक्षीणायाम् दृश्यदृश्यो नाम देवास्तेषाम् वर्कामयिष्याः तेनो मृदायनो विश्लोतयेभ्यो वो नमस्तेभ्यो वस्मः राजा नाम देवास्ते स्तेषाः तेनो मृधनेनोधि ब्रोदतेभ्यो नास्तेभ्यो वस्ता ये स्थोदीच्याम्प्रविध्यन्तो नाम देवास्तेषाम् बहुवार्तयिषावः तेनो मृणधनेनोधि ब्रूदते ये एस्यांस्तध्रुवायाम् ऋषिलीलिम्बानाम देवास्तेणाम् बगोरधीरिषावः तेनो आम्रदेनोधिब्रूदतेभ्यो गोरमस्तेभ्यो वस्व ये स्तोर्ध्वायाम् ऋष्यवस्वन्तो नाम देवास्तेणाम् बगोढस्पदीरिषावः ेनोहामृढरेणीन्द्रोभ्यो नमस्तेभ्यो वस्ता प्राये रक्षणा इत्यादिषामः नमो रक्ष्यो न मयिषुभ्यो नमा येभ्योऽस्तु योन्मयम् यस्मात् सम्भाजम्भे दत्म दक्षिणादीन्द्रोऽधिपति अस्ति रक्षि राजे रक्षिणा विरयिषामः ते ध्यानमोऽधिपतिभ्यो नो रक्षतुमयिषभ्यानमारेभ्योऽस्तु योस्मान् ज्येष्ठियम् वयम् दश्मस्तम् वायम् भवे दद्मः प्रैकरुणोऽधीपतिप्रदाः को रक्षतान्नेवः ते ध्यानमोऽधिपतिभ्यानमो रक्षतुभ्यानमयिषभ्यानमारेभ्यः स्तु योऽस्माङ्गयम्भयम् धृष्मस्तम् वाजम्भे दद्मः उदी सोमो रक्षिता शरीरणाः तेभ्यो नमोधिपतिभ्यो नमो रक्षितृभ्यो न मयिषभ्यो नेभ्योस्तु योऽस्माङ्गे श्रियम्भयम् धृष्मस्तम् बोजम्भे दद्मः ध्रुवादिकृष्णाभिधेपति कल्माशग्रीयो रक्षिता भीरुमः धिपतिभ्यो नो नेष्टिम्बायम्भे रत्नः ओर्वादय बृहस्पतिरेव रक्षिता वर्षमिषाः तेभ्यो नमाधिपतिभ्यो नमो रक्षतुर्ध्यानमयिषभ्यो नेभ्योऽस्तु यम् दश्मः दद्मः एकैकैशा दृष्ट्या तम् वयत्रन्दभूत कृतुस्तावचोन् क्षेणादि पदेशी एषा वचोन्सञ्छेणादि भूत्वा उतैराम् ब्रह्मणे दद्यात्ोरा शिवास्या शिवा शिवानस्मि सर्वस्मैवान इहैः इहपृष्टेरिहरस इह सहस्रमाभव अशून्यमिनिपोषय यत्रा सुराधस्तुकृतो मदन्ति तल्लोकमीन भू वसानिंजेत्षा पशूंश यदा सुहांसाग्नियोत्र होता लोकोकम भूबसानोिजेपुर पशूंश यद्रजानो विभजन तेस्ता से भाषा स्तस्मात् प्रमुदत्तस्य सर्वान् कामान् भवन् आगोन् दत्तस्य इष्टम् लोकेन सम्मेलम् सनागमभ्यारोह यत्र सङ्को न क्रियते फलेन पञ्चाः गोपंशतिपादनम् लोकेन सम्मिलम् प्रदातोपजीवति मित्रेण लोके लोकेन सम्मिलितम् प्रदातोपजीवति सूर्यामासयो इरे अनोपादस्यति समुद्रये भवयोः महदेव देवनाः विवशित्वा नोपादस्यति ैलङ्कस्मा कामः कामाया कामो दाता कामः प्रतिगृहीता दा कामः समुद्रमामीवेष कामे नत्वा प्रदे गृह्णहात्ते भो प्राणे नमात्मनाम प्रजया प्रतिगृह्य राहषि सहृदयम् दामनह समभिद्वेषम् कृणोमि अन्यो अन्यहर्यतवत्सञ्जातमेवन्या अनोरपितुः पुत्रो मात्रा भवतु सम्मानाः जायापत्ये मधुमि वाचम् वदसन्निवाय मा भ्राता भ्रातारक्षामाः सम्यम् च सौरता भूत्वा वाचम् मदतभात्या येन देवानभियन्दिनो च विद्विषते भितः अत्र महाब्रह्मेषु हेभ्यः ज्याय स्वन्दश्चितिरियोष्टुराश्चरन्तः अन्यो अन्यस्मै अल्गुवयम् देदीनाम् दे तम्मानृणोमि स्वामेव प्रवासहवो न वाकस्तौ सहवोज्मि सम्यञ्जोग्निंसपर्यतारा निवापिता सद्मस्सम्मानसष्टि राम्ये कष्टेन सम्मनयेन सर्वाय देवायी भावृतम् नक्ष्यमाण सायम् प्रातः सम्मनयस्तु विदेवाय नृतम् वित्तमग्नेया व्याहम् सर्वेण पापनामि लक्ष्मेण समाजोषा यात्या पमानो निशक्रः पापकृत्यया ्याहम् सर्वेण पात्मनामि लक्ष्मेण समानुषा वीराम्याः पशवाण्यैर्ययापस्तृष्णायासनम् व्याहम् सर्वेण पात्मनामि लक्ष्मेण समानुषा मी इमे द्या वा पृथिवी इतो निबम् दा दिशम् दिशम् व्याहम् सर्वेण पात्मनामि लक्ष्मेण समानुषा त्वष्टाः लुहित्रैव हतुम् यो नक्ति एवम् विश्वम्भवनम् व्याहदि व्याहम् सर्वेण पाप्मनामि लक्ष्मेण समायो अग्निप्राणान् चन्द्रधाति चन्द्रप्राणेन संहितः व्या अहम् सर्वेण पाप्मनामि लक्ष्मेण समायो प्राणेन विश्वतो समा प्राणे वीरम् देवा सूर्यम् समीरयन् व्या त्मनामि यक्ष्णे रतमालोढा आयुष्मतामायुष्कृताम् प्राणेनैव मामृधा याहम् दर्वेण आत्मनामि यक्ष्णे रतमायोषा प्राणेन प्रताम् प्राणेनैव मामृधा व्याहम् दर्वेण आत्मनामि यक्ष्णे रतमायोषा उदायुषा समायुषो नाम् न त्मना विलक्ष्मेण समानोहा आवर्जन्यस्य विश्चोदस्थाः वयम् व्याहम् सर्वेण आत्मना विलक्ष्मेण समानोहा इति तृतीयम् काण्डम् समाप्तम् अथ चतुर्थम् काण्डम् ओ ब्रह्म जानम् पुरस्ताद्विजो वेणाव स बुद्ध्या उपया सदश्च विवाह इयम् विद्याः तस्मा एतम् सुलजम् वारमय्यम् धर्मम् जये रन् प्रसाय दास्ये प्रयो यज्ञे विद्वानश्च बन्धुर्विश्वाः देवानाञ्जने पाविभक्ने ब्रह्म ब्रह्मणवज्जय मध्याह्चैः चे स्वरावे तत्ता ेवम् सादाश्च जनुषोऽभ्यग्रम्भेवक्रम् योगीषो जनिष्ठा हिमन्तो विवासन्तप्राः नोऽस्यो हिनोति महोदेवस्य गोर्वस्य धाम एष यज्ञे भवतिः साकमित्था यो धर्वाणम् वितरम् देववम् बृहस्वजन् त्वम् विश्वेणाञ्जिताय सार्देव या पुरायस्य उपासारे प्रस्य दुष्प कस्मे हम प्रतोरा यु कस्मे हमीषा जंगसी अवतचानेम अव्वाएधा यस्यासो पन्था रजसो विमानः कस्मै देवाय हमिषाः विधेम यस्य ज्ञोरुर्वीतिवा आन्तरिक्षान् यस्यातो सूरो विजयतो महित्वा कस्मै देवाय हमिषाः विधेम यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसाहुः मानश्च प्रतिशो यस्य बाहू कस्मै देवाय हमिषाः विधेम आपो अग्रे विश्वे वा भङ्गर्भन् अमृताः ज्ञाः यासो देवेष्वधि देवासीत् कस्मै देवाय हमिषाः विधेम हिरण्यगरतः भूतस्य जातप्रतिरेक आसीर धामुद्याङ्गस्मै देवाय हरिवाह विधेम आवो वत्सयन्ति दीर्घ्रे समीरन् तस्योदजाय मास्मै देवाय हरिषाः विधेम उदितस्तयो क्रमञ्जराग्रः पुरुषो मृगाः हिरुग् सिन्द्रोहिरुदेवनस्पतिर्हिरङ्गः परेणैतवसाग परमेणतस्त परेण दत्वरेण अक्षमोचले मुखम् जले व्याघ्रजमे भयामति सर्वान् विंशति नकार व्याघ्रम् दत्वराम्भयम् प्रथमम् जम् भयामति आदुस्ते नमसोमहम् राजसा नमथोमघम् यो हध्यस्तेना य सोहाय वसामाध्वंसे नेत्रिहन्तुरम् शयुर्मृगः न संयमाः इन्द्रया सो मया सर्वणमश्याघ्रजम्भानम् यान् त्वाहायम् धर्वोरुणाय मृतभ्राजे मेण वादिनाः यथा स्मदे विरोहादोऽभिरक्तमिमानानि तदस्ते सूक्ष्मावत्तरमियङ्कृतोषाधिः उत्सुष्मोषाधीनाम् पुंसामिन् नस्यामस्मिन् अवा सर्पदो वनस्पतीनाम् उदतो वस्थ्राताः सुमज्यम् अद्याग्ने हितये विहरस्वती अद्याश्च ब्रह्मनस्पते धनुविवादाः आहम् दामिद्यामे अधन्वानि क्रमस्पर्शयिता सदा अष्टस्याष्टस्य अदर्शवस्येहि तनोभीन् शास्त्रशङ्गोषभो यस्य मुद्रा दुदाचारतेन वयम् निजनान् स्वामनामी नभो निम्बातो अदेवादिना देवस्य दिकर्श स्त्रियश्च सर्वाः स्वापयस्वन्द्रहाजरम् स्त्रियया पुण्यगन्धयस्ताः सर्वाः स्वाभयावधि येजेजग्रहम् नक्ष प्राणमाजग्रहम् या नाम अंग्रभम सर्वासर्वेन्दे तेरा सन्दध्क्षी स्वत् पिता स्वत्पतिस्ती ज्ञात स्वयं जपन स्वप्नाक निश्वावयाजनम ोत्सौर्यमन्यान् स्वापयः प्रसोदशोदशा निम्ना यावत् सप्त निम्ना गोवि वाचम्वादिषम् सुवर्णस्त्वागरत् माम् मिषः प्रथमाहावयत् नामो नारुरूपहुदास्मा भव पितुः यस्तः सत्पञ्चाङ्गुरिर्वक्राचिदधिनः आस्कम्भस्य शल्यान् निरवोचमहम्विषाम् शल्याद्विषम् निरवोचम् राञ्जल राजवर्णे अवाष्टाच्छृङ्गात् वोचमहम् विषम् अरदस्य अरदसंविषम् उता रथस्य वृक्षस्य धनुस्ते अरसारथम् ये अपि हन्येऽ्यास्यन्ये अवासृजन्न सर्वे ते वध्रेर कृतावध्रिर्विषये वृद्रायस्ते कनितारो वध्रिस्त्वमस्य औषधे स पर्वतो गिर्यतो जातमिदम् विषम् वारिदम् वारयाते वरणामत्यावधि तत्रावृतस्यासिक्तम् देना देवारणे विषम् अरथम् राज्यम् विधमारसंयतु दीक्ष्यम् कृत्वा गिर्यम् देवताकमोदारथिम् त्वा दुष्टो चिवान् सरोपः विरे हरमेव वादयावति रत्वा चलमे रजम् च परिग्राम विवाचि धम्म च ला स्थापयावति तिष्ठाः वृक्षये स्थारूपः पवस्तैः स्थापयिरजनैः प्रक्रीरादे अनात्ता एव प्रसमायानि कर्मणि चक्रिरे तत्परोदाे भूतो भूते सुवरभूतानामधीमजन् बभूव तस्य मृत्युश्च रजराजसोऽयं राजाराज्यमनो मन्यतामिनम् अभिप्रे हिमापावेन उगश्चेत्ता स पत्नः आदिष्ठ विक्रमभ्यम् देवादिब्रमन् आदिष्ठन् दम्बरि विश्वे रूढशिजम्बास्वरोद्दृष्ट्वा सूरस्य रामा विश्वरूप अमृता वितस्थो याग्रोधिवैयाग्रे विक्रमस्वदिशोमही विषस्त्वा सर्वाञ्छन् त्वापो दिव्याप्पयस्वती शापो दिव्यापयसामदम् अन्तरिक्ष उत वा पृथिव्यासान् त्वा सर्वा सामभिलिङ्गाभिवर्जदा अभित्वा वर्जसाधयन्नावो दिव्याप्पयस्वनी यथातो मित्रार्धनस्तथा त्वादृताक घम्बरि रक्स्वजाना सिंहम् हिन्वन्ति महदे सौभागाय समग्रस्तस्ति वांसम् अनुमृज्यन्ते देवि